अथ तृतीयाष्टके नवमप्रश्नः प्रारम्भः प्रजापतिरश्वमेधमसृजतास्मात्सृष्टोपाक्रामद तमष्टादशभिरनुपायन्द तमात्माद तमात्माष्टादशभिरवारन्दा निरष्टादशनार्भ्यन्दे ृन्दे संवत्सरस्य वादेश प्रतिमा निष्टादशिनः द्वादशमासात् संवत्सरोष्टादशः आरभ्यन्दे संवत्सरमेहतेराय मानो वृन्देष्टे पशोऽनुपाकरोतिरूपेष्पष्टादशिनोजामित्वायन्दे श्रीधित्वाय सर्गस्थापयेत् स्येदाम् पिता पुत्रौ विद्वानग्रामेयोः स्यादा्येष्वाजापयेत् शुक्रेयजमानमरण्यम् अरण्यायतनाह्यारण्यात् पशव इति तत्पशोऽना लभेत अनवृद्धास्य पशवस्य संवि पुरुषव्याघ्राेष्वाजायन्तेश्चारण्याश्च तैर्वैको भो लोकापवारन्ध राम्यैरेव तस्मैरिमम् लोकमवारुन्ध आरण्यैरमम् यद्राम्यान् पशूनालभते इममेव तैर्लोकमवृन्दे तदाण्यान् एतस्य संवत्सर इत्याहो या इति प्रत्यक्षमेव प्रजया पशुभिते तत्संवत्सरम् प्रयुङ्क्ते संवत्सरः सुवर्गो लोकः सुवर्गन् लोकन्नापराह्नोति प्रजा वै पशव एकादशिनी यदेव एकादशिनः पशवाः लभ्यन्ते दे। साक्षादेव प्रजाम्पशो वृन्दे प्रजापतिर्विराजमसृजिता सा दृष्टाश्वमेधम् तान प्राविशर तान् दशिभिरनुप्रायुङ्रवारुन्दा यद्दशिनाः लभ्यन्तेरात्वा यजमानो वृन्दे एकादशदशनाः लभ्यन्ते एकादशाक्षराक्रिष्टुपाः पशवः शुरेव ईश्वरे वाश्व भवन्ति अश्वस्य सर्वत्वायरूपा भवन्ति भवन्ति ग्राम्याः पशवः आरभ्यन्ते अमुष्मारण्याः यद्ग्राम्यान् पशूनालभते इमेव यदा पशूनालभते श्चरण्याविश्च वयस्याम्याविश्चारण्याविश्च वयेषां नामवृद्धियो भवन्ति हये लोकाः लोकानामावती लोके ृतोः प्रियावृतम् लोकानामाप्तिनाम् वृत्तिः परियज्ञकृतायिन्ति प्रथममित्याह मेवास्मैर्वारुषः अर्भ्यमेवास्मै वायुर्वेचरन् वायुमेवास्मैस्तुष इत्याह इमे वै लोकाः परिदस्तुषः इमानेवास्मि लोका रोचरोचनादि इत्याह नक्षत्राणि वैरोचनादिवि नक्षत्राण्येवास्मि रोच्येताः कामानेवास्मै हृति हरिविपक्षसेत्याह इमे वै हरीविपक्षसा इमे एवास्मै शोणा विष्णो निवाहसेत्याहोरात्रे वै निवाहसा गोरात्रे एवास्मैवास्मै देवतायुभक्ति स्वर्गस्य लोकस्य समष्टितुजम् प्रतिमुञ्चतिज्ञाङ्गमयति गमित्याः यथा जीत्य एवम् लोकानाम् अभिरुचि हिरण्यया कादा भवन्ति शिवगर्वैः स्ववेदीराष्ट्रम् चोकः स्वर्गस्य लोकस्याभिज्यैतस्मात्तेजोवृन्धे पुत्रास्मावरुन्धे आदित्यास्मागते नन्दसे ते दो वा ते चैवास्मै पिशोनवरुन्धे हनयो भञ्जन्ति श्रिया वा एतद्रूपम् यत्प्रत्ययः श्रीवास्मिन् दधतिश्रीरपक्रामन्ति ृथिवी ततः येषाम् लोकानामभिरि समेटा नन्दन करदनमरेना वितश्वस्य प्रियावन्दिवरो वत्तया चेतसवायेष ब्रह्मवत्सलां व्यर्जते रोहाश्वमेदेन व्यर्जते औदाजब्रह्माजब्रह्माद्यमदवा चेतजदेवेन ब्रह्मवत्स्य समुद्देत चन्दो ब्रह्माभवति अक्षरवायतमवे ब्रह्मा अरहत्पतयेव ब्रह्मा नमवत्स्मेवास क्षुणगोददादि पद्मादक्षणाब्धा ब्रह्मावत्स्य सिद्रा उत्तरदाहता भवति त्याहे वृष्टिः पूर्वदिति वृष्टिमवृन्दे यदासी बृहत्तयेत्याह अश्वमै बृहत्तयः अश्वमेवा वृन्दे श्रीकृष्णदासीप्शङ्खिरेत्याह रात्रिवैपशङ्खिराः रात्रिमेवावृन्दे श्रीकृष्णदासीप्लेत्याह श्रीर्वैपरिवावृन्दे कृष्वदे काकीचरदीत्यावावृन्दे दे दे मुत्सुविधाय देवुनरित्याह चन्द्रमावीराय देवुनः आयुरेवावृन्दे श्रीकृष् हिमस्य भैश्वर्याहनिर्वै हिमस्य भैश्वरम् त्वाबवन्दं पृथिव्या इत्याह वेदुर्वैलवन्तः पृथिव्याः वेदिवा वृन्दे पृच्छामि त्वाभवनसि भवनस्नाभि यज्ञवा वृन्दे पृच्छामि त्वा वृष्णस्य रेदः सोमवीथमेवावृन्दे पृच्छामि न्तिोन्त्वा अभैवास्मि तद्भवते अथोहन्त्येवैनम् अतो न्यैवास्मै तिष्पर्यन्ति त्रे लोकाः येभ्य एवैनम् लोकेभ्यो भवते तिष्पुरःपर्यन्ति षड्संवद्यन्ते षड्वा हृदव ऋतुभिरेवैनम् अपवा एतेभ्यः प्राणाश्रामन्ति ये धुवनम् धर्मते अपकृत्वयन्ति न वैपृषे प्राणाः प्राणानेवात्मन्दधते येभ्यः प्राणापक्रामन्ति ीनाम्भगैकाम्बीरवासिनीत्याह तपदेवीनाम् लोकङ्गत्याहीपुशुवभ्यः गामेव पशुशो नात्मन् सत्ते देवाश्वमेधे भवमाने स्वर्गल् लोकन्न प्रानन् रजता हिण्यः अस्य वैरोगस्य रोपस्मयः अन्तरिक्षस्य रजताः दिवो हरिण्यः दिशो वा यस्मय्यः रजिताः घोर्ध्वा हरिण्यः दिश एवास्मै कल्पयति एत श्रीराष्ट्रं यदित्याः श्रीर्वै राष्ट्रमश्वमेधा श्रीयमेवास्मि राष्ट्रिङ्गिरावेत्या श्रीर्वैराष्ट्रस्यैराष्ट्रस्यन्ते यञ्जकाशगन्धिकेत्याह यण्षगन्धिका राष्ट्रमश्वमेधः राष्ट्रम् समीची दधाति आहरमितिपदीत्या विश्याहन्ति तस्मात् राष्ट्रम् शङ्घादिकम् माताचले पिताचल इत्याह इं वै माता रसौ पिता आभ्यामेवैरम् परिदधाति अभिलं वृक्षस्य प्राणाक्रामन्ति ये भो वदन्ति वदन्ति प्राणावै सुभयः प्राणादेवात्मन् दधते येभ्यः प्राणावक्रामन्ति आभोहिष्ठामि यो भवेत्यभिमार्जयन्ते आ भो वै सर्वा देवताः देवताभिरेव आत्मानम् प्रजाभिः प्रजा सृष्ट्वा प्रेणानुप्राप्त नाभ्यः पुनःसम्भरिनाशक्मालीरत्सह यो मेधः पुनः संभरदिति तन्मेधेनैव संहरन् तदवेदामेधेनै प्रजापतिमेव संभरत्युग्नोति पुरुषमालभते वै राजो वै पुरुषः विराजमेवालभते अथो अन्नम् अन्नमेवावृन्दे अश्वमालभते राजा प्रजापतिमेवालभते अथो श्रीर्वा एकशीमेवा वृन्दे कामालभते यज्ञो वै गौः यज्ञमेवालभते अथो अन्नं वै गौः अन्नमेवावृन्दे प्रजा वै आलभते भूम्ने एतो पशुरालभ्येष्ठाभमाभिप्रीताः अभिजिताभिहता भवन्ति नैनन्द्रः पशुवो यज्ञे वृद्धाः अभीष्टाभिप्रीताः अभिजिताभिहताभि पुंसन्ति योश्वमेधेन ना न्दः अन्ये वा एते पशवः लभ्यन्तेवारण्याः अहदेवरूपेण समर्थयति अथो अह्न एव परिक्रियते तदाहो एतेभते वृन्दे राजा भवन्ति सौरी नेतान्ध्या भवन्ति पशुभिुद्यते त्मानगो समर्थयति आ वा एष पशुभ्याधेन परियज्ञकृतां श्रृष्टाय एताविश्वमेधे महिमानावश्रावगृह्णीता ततो भवन्नाथ स्वामिति स एताविश्वमेता महानेवान्नादो भवति यजमानदेव राजा महिमान् हिमवान् महिम्नो भेदः परिमानमेव राज्येन भेदः वरष्टात् वाहकारान् ये तेवा देवेशो एव माध्योभये वर्तन्ते यत्त्वाम महीम नो भेदप्रयदति तारेव भव्या आन्द्रियादि ऐश्वर्यदेव वास्वः तयो प्रजावर्तिं गुर्ज्याद त्यादेवताविभागाः तथा भगाय नव्यते देवताः कस्समन्त्याल स्थेगान् कृष्टाभ्यां मुण्डो काञ्जिञ्भे वृद्धि आदि उदानान गुप्ताकृतं जयमहदित्य आदि ेवतापि भागाः समर्थयति चतुर्दशैतानन्धात्रमहि अथैतानभिमेति तेलोहितमुदहरन्ता ैको मृगः सृष्टकृत रुत्रा देवपुशोऽन्तर्भूयते न तत्र ऋत्रःपुशो नभिमन्यते अश्वशपेन द्वितीयामाहुतिम् जहोति अशभो वा एकशपम् ऋत्रोराग्निसृष्ठकृत रुत्रा देवपुशोऽन्तर्दधाति अथो यत्रैषाहुजे तत्र रुद्रपुशोनस्मयेन कमण्डलुहाय प्रजाः देवप्रजाति अथो यत्रैषाहुज महिले रुद्रप्रजाते कृष्णस्य मे षट्त्रिपुंसञ्जहवति षट्त्रिपुंसदक्षराबृहति सायत्वंसञ्जति षट्त्रिपुंसदक्षरा बृहती मार्हता सा पे आसूर्तयति अश्वस्थमीत्वा द्विपदा जहोति द्विपाद्विष्टो पुरुषोद्विपदा जति स्म मातेवात्रृष्पादमति तथा दिव्यदेव दिव्यदुष्पलप्रतिष्ठावेदी इवदापतः ज्ञानयक्तानाभावन्योत ज्ञानयक्तानाभावन्योत प्रप्रतिष्ठाया राष्ट्रवेदादिवदान्ततोदहोदप्रतिष्ठिति ज्ञानवदिरस्मेधमसंकीता सोस्मः सृष्टोवाक्रमद तन्ज्यज्ञपदवर्णमैच्छद तन्ज्यज्ञपदवर्णामवিন্দद विमिष्टकर्ममैच्छद भवन्ति अश्वस्ये चेत् प्रादृष्टिभ्यामेवत्राभ्यामेवास्मै योगक्षेमं कल्पयति एतस्माच्छ्रीणागाणो गायतः श्रिया वा एतद्रुवम् यद्वीणा श्रियमेवास्मिन् दद्ध यदा, यदा खल्वी पुरुषश्रियमस्तुदे वीणास्मैवाद्यते तथा ब्राह्मणो गायतास्माच्छ्री स्यात् ब्राह्मणेश्वरीरमद इति ब्राह्मणोन्यो गायेत् ्राह्मणः क्षत्रगौराजन्यः तथागृहीता भवति तदा यद्भवति वा गायेष्ट्रङ्ग्रामे ब्राह्मणे राष्ट्रगौरमदै यदा कुलवै राजा कामयते अथ ब्राह्मणञ्जनादियेर्नक्तगौराजन्यः का ब्रह्मणो वै रूपमः शतस्रात्रि क्षत्रेण राष्ट्रम् परिगृहीतम् राजन्यः युद्धं वैराजन्यस्य युद्धेनैवेन एतस्यर्थवैद्याहो सर्वेषु वा येषु लोकेषु मृत्युपौर्वायत्ताः तेभ्यो यदा मृत्युर्विन्दे स्वाह मृत्युवेस्वाहे पूर्वे लोकाल्लोकादेव मृत्युमपेजते लोके मृत्युर्विन्दतिकस्मा एन् लोके मृत्युः मृत्युरेव स्वाहेत्योणहत्यामेवावेजते तदाहत्या पात्रियात ेषु द्रोणहत्यायै प्रायश्चित्तम् विधाञ्चकारी सर्वस्मै तस्मै पेषति ृत्यम् करोति वात्याह राजावृत्यो वा श्रीमेव स्वाहे द्विभागृते ज्योति आरब्धा स्वाहे दिक्ते ज्योति हता इस्वाहेति उते ज्योति तेषाम् लोकानाम् अभिरुचिः यदा अग्नेयो भवति अग्निः सर्वा देवता देवता एवावृन्दे ब्रह्मवाग्निः क्षत्रमिन्द्रः त्रयीन्द्राग्नो भवति ब्रह्मक्षत्रे एवावृन्दे यदा अश्विनो भवति आशिषामृत्यै त्रयो भव ष्ठति अग्नयति सर्वत्रान् आग्नेष्टाकपालम्भवेद सौम्यञ्जनम् आग्कपालम् यदाग्नेया भवति तद्भिः सर्वा देवताः देवताभिरेणम् विषस्यति तत् सौम्य भवति सौमोगा भोषति राघोराजा याभ्य एवम् विन्दति ताभिरेवेण भिषस्यति यत् सा वित्र भवति समिदर्प्रतोति एताभिरेवेण देवताभिर्भिषध्यति भगतो हव भवति कौष्णम् जलम् निर्भवेत् यदि श्रोणस्यात् ऊषा वैश्लोण्यस्यम् विषध्यति अश्रोणा हि भवति पौत्रम् जलम् निर्भवेत् ेवताभिश्वः मृत्युभ्याम् परिवर्धमान इति वा हतिष्ठाकपालः सौर्यम्भयः वायव्याद्यभागः यजमानो बाश्वः गृहीतः यस्याश्वमेधाप्रोक्षमानो वा एतावदाति दे सर्वाभि संवत्सर एव प्रतिष्ठति केशविभो नाम यज्ञः सर्वे तत्र विभोधि एष वै प्रभो नाम यज्ञः सर्वगो हविैतेन यज्ञेन यजन्ते यत्रैतेन यज्ञेन यजन्ते एष वै वैस्वान्नाम यज्ञः सर्वगो हवे तत्र वैस्वद्भवति यत्रैतेन यज्ञेन यजन्ते एष वै विधृतो नाम यज्ञः सर्वगो हवे तत्र विधृतम् एष वै व्यावृतो नाम यज्ञः सर्वगो हवे तत्र व्यावृत्तम् भवति यत्रैतेन यज्ञेन यजन्ते एष वै नाम यज्ञः सर्वगो तत्र प्रतिष्ठितम् भवति यत्रैतेन यज्ञेन यजन्ते एष वै तेजस्वीनाम यज्ञः सर्वगो तत्र तेजस्वी भवति यत्रैतेन यज्ञेन यजन्ते एष वै ब्रह्मनाम यज्ञः आहवे तत्र ब्राह्मण ब्रह्मवच्यदीजायते यत्रैतेन यज्ञेन यजन्ते एषवादिव्याधीनाम यज्ञः आहवे तत्र कासञ्जायते यत्रैतेन यज्ञेन यजन्ते एष वैदीर्घो नाम यज्ञः दीर्घायुषा हवै तत्र मनुष्या भवन्ति यत्रैतेन यज्ञेन यजन्ते एष वै क्लृप्ता नाम यज्ञः सम्प्रदे हवि तत्र प्रजाभ्यो योगक्षेमः यत्रैतेन यज्ञेन यजन्ते कार्व्येनाश्मो सञ्ज्ञाविदाप्यम् यज्ञेनैव समर्थयन्ति यामे साम्नागोरूपम् रुग् भवति स्वर्गस्य लोकस्यानुख्याद्यै अश्वो भवति प्रजापतेरा लोकस्य रूपम् ताप्यम् अन्तरिक्षस्य कृत्यधि वादः इव हिरण्यकशिपो आदित्यस्य रुग् प्रजापतेरश्वः इवमेवेनैवेन प्रजापते सायुज्यंस लोकतामाप्नोति एतासामेव देवता नाकुंसायुज्यम् काश्चिदाकुंसमानलोकतामाप्नोति योऽश्वमेधेन युजते योजेनमेवम् मेधा आदित्याश्चाङ्ग्रक्ये लोके स्पर्धन्ताः त्यमश्ल्वश्वेतम् भूतम् दक्षिणामलयन् हे ब्रुवन्धोश्वादश्र्वो नाम तस्मादर्वानाम यत्सत्यो वाजाम् लोकाना दत्ता तस्मादात्येवम् वेदापानौ वा यो देवानाम् निर्काश्वमेधौ प्राणापानामेवा वृन्दे को जोगलम् वा यदौ देवानाम् निर्काश्वमेधौ को जोगलमेवा वृन्दे ेवावृन्धे प्रतिष्ठति प्रजापतिं वै देवाम् मेधायालभन्तालप्योपावसन् आदरीष्टाः स्मः इति हे गम्बा एतद्देवानामः यत्संवत्सर एवम् वेदा सर्वाणि भूतानि संहृत्य योः अश्वमेधेन यज्ञमयन्त देवाः कामप्रञ्ज्ञमकर्मतामकामयन्तमगच्छन् योःश्वमेधेन देवानामेवायनेन इति गच्छति एतस्य मेध्यस्य लोमनि वेद अश्वस्यैव मेध्यस्य लोमन् लोमञ्जोति होरात्रे वास्य मेध्यस्य लोमनि यत् सायम्भ्योति अश्वस्यैव मेध्यस्य लोमं लोमंजुहोदि एतदनुकृतिहत्मवै पुरा अश्वस्यैवस्यैवजुहोदितदनुकृतिहत्मवयुरा अश्वस्य मेध्यस्य अश्वस्यैवतीयाष्टके नवमप्रश्नः समाप्तः